अत षोडश गणपति ध्यानानी करस्थ करस्थकदली चूत पनसेच्छुक प्कम् बालसूर्यः देवं वन्दे देवम् बालगणाधिपम् नालिकेराम्रकदली सधारिनं भजे सशाङ्क सङ्काशम् ेवम् भक्तगणाधिपम् वेदालशक्तिशरकार्मुकशङ्खचक्र खड्वाङ्गमुद्गरगदाङ्कुशनागपाशै शूरम् च कुन्द परशुध्वजमुद्वहन्तम् वीरम् गणेशमरुणम् सततम् स्मरामि आलिङ्ग्य देवीम् हरिताम् निषण्णा परस्परास्पृष्टगडीनिवेशाम् सन्ध्यारुणम् पाशश्रुणी वहन्तम् भयावहम् शक्ति गणेश मीडे यः पुस्तकाक्ष अङ्गस्मरे द्विधिगणाधिपते स धन्यः पक्वचूदफलकल्पमञ्जरीमिक्षुदण्ड तिलमोदकम् वहन् राजते परशुहस्तते नमः श्रीसमृद्धि सहितश्च पिङ्गलः नीलाज्यम् दाडिमम् दधदुचिष्ट नामातु गणेशः पातु सन्नतः पाशाङ्गुश स्वतन्ताम्रफलवान् आखुवाहनः विघ्नम् निहन्तु नः सर्वम् रक्तवर्णो विनायकः गङ्गल्बापाश कुम्भाङ्कुशोज्ज्वलम् बन्धोकगमनीयाङ्गम् ध्यायेत् चिप्रविनायकम् अभयवररहस्रः पाशदन्ताक्षमाला परशुश्रेणिदृशीदृशम् उद्गरम् मोदकम् च दधदधिगतसिंहः पञ्चमातङ्गवक्त्रो गणपतिरथ गौरः पातु हे रम्बनामा बिभ्राणः शुकबीजपुरकमल मालिक्य कुम्भाङ्कुशा पाशम् कल्पलताञ्च पाणि कलशम् श्रोतः सुधा निर्जरम् श्यामेनात्तसरोरुहेण सरितो देवी द्वयेके गौराङ्गोवरधा कमलो लक्ष्मी गणेशोऽवदात् शङ्खेषु चाबकुसुमेषु कुठारपाश चक्षाङ्कुशैकलभमञ्जरिकासनाथैः पाणिस्थितैर्परिसमाहित भूषण श्री दीर्घेश्वरो विजयते दमणीय गौरः आशाङ्कुचाबूबकुठार दन्त चञ्चक्रम् क्लवराङ्गुलीयकम् पीतप्रभं कल्पतरो रहस्थम् भजामि वृत्तैकपदम् गणेशम् कल्म्बुज बीजबोरगदा दन्तेक्षु बाणे समम् बिभ्राणो मणि कुम्भशालि गणिशो पाशङ्गचक्रान्वितम् गौराङ्ग्यार्जिरविन्दयुतया देव्या समालिङ्गितः शोणनाङ्गः शुभमादनोतु भवता नित्यम् गणेशो महान् कुलारशाी गणशेश्वरश्वधास्त्र दन्तप्ररोह आलिङ्गणोद्यतकरो हरिताङ्गयष्ट्या देयाभिष त्वमयमूर्ध्वगणेश्वरस्ते पाशाङ्कुशेक्षुशकेषु सरोजदन्त शाल्यग्ररत्नकलशाभरणाभिरामम् पार्श्वे सदारयुगलम् कनकाभमीडे हारिद्रगुञ्जरनिभम् करुणानिवासम् निलिलजितमिमङ्गणाधिराजस्तवम् अनुत्तममादरेण नित्यम् स्मरति पठति अशृणोति वापि जगदि तस्य न किञ्चिदप्यवाप्यम्